सर्वनामस्थानम् श्री सर्वनामस्थानम् सुदनपुंसकस्य न वेतिः भाषा इयनः सम्प्रसारणम् आजन्तौ टगितौ श्री सर्वनामस्थानम् सुदनपुंसकस्य नवेति भाषा इयनः सम्प्रसारणम् आजन्तौ आजन्तौ चवितो निरचोन्त्यात् परः आजन्तौ पठितौ निग चान्त्यान्तौ पठितौ निरचान्त्यालशोन्त्यात्परः निरचान्त्या आन्तौ चवितो विलचोन्त्यात्परः इर्घ्रस्वादेशे ए च इर्घ्रस्वादेशे ए च इर्घ्रस्वादेशे च इर्घ्रस्वादेशे मृद चोन्त्यात्मः ए च ए च इर्घ्रस्वादेशे मिल परहा परः एष इभ्रस्वादेशे षष्ठिस्थाने योगा षष्ठि स्थाने योगा षष्ठि स्थाने योगा ए च इभ्रस्वादेशे षष्ठिस्थाने योगा ए च इस्वादेशे षष्ठी स्थाने योगा निरच्या परा एघ्र स्वादेशे स्थाने योगा निरचारा एवादेशे षष्ठी स्थाने शरी साने योगां ज्ञाने स्वादे शी सोगा षी सेन्द्र तमः स्थाने तमः विशिष्ट्र तमः स्थानेतरतमः षष्टि स्थाने योगा स्थाने तमः षिस्थाने योगा स्थानेन्तरतमः योगा स्थानेन्तरतमः पुराणपरः षष्ठिस्थाने योगा स्थानेन्तरतमः पुराणपरः ए च इघ्र स्वादेशे षष्ठि स्थाने योगा स्थानेन्तर्तमः उरन्द्रपदः ए च इग्रे स्वादेशे षष्ठि स्थाने योगा स्थानेन्तरतमः पुरन्नपदः स्थानेन्तरतमः उरन् रपदः स्थानेतरतमः पुरन्नपदः घ्रस्वादेशे षष्ठी स्थाने योगा स्थानेतल् तमः पुरन्धपरः ए च इघ्रस्वादेशे स्वादेशे षष्ठि स्थाने योगा स्थाने तमः पुराणपमः निरशोच्यात्परः ए च इघ्रस्वादेशे चि स्थाने योग हानन्त स्थाने योग स्थानेतरतमः हानन्तरन्तर्तमः स्थाने तर्तमः मः पुरः स्थाने तमा पु योगा सम्यन्तरः षष्ठी स्थाने योगा स्थानेतर अजन्तौ तवितौ एत इस्वादेशे षष्ठि योगा योग स्थानेतर्गमः पुरन्द्रपदः आद्यन्तौ घटितौ जापः एत इघ्रस्वादेशे षष्ठिष्ठाने योगा निष्ठा षर्नामस्थानम् सुदनपुंसकस्य न वेति विभाषा केजः सम्प्रसारणम् आद्यन्तौ चलितौ मिलोन्त्यात्परः एत हि ब्रस्पादेशे षष्ठी स्थानी योगा स्थानेऽन्तरतमः गृहपदः श्रीसर्वनाम सुरनपूंसकस्य न वेति भाषा प्रेरणा सम्प्रसारणम् आभ्यन्तौ लगितौ निरचो जातः एषभ्यः सादेशे षष्ठि स्थाने योगा स्थानेऽन्तर्तमः पुरण्डा श्रीसर्वमस्थानम् सुदनपूंसकस्य न वेति ये जनः सम्प्रसारणम् आदन्तौ कवितौ मिलोन्त्यात्पदः ए च इभ्रस्वादेशे षष्ठे स्थाने योगा स्थानेन्तरतमः पुरन्नपलः श्री